नारायणीयं दशकं नैन्टी नैन् मीटर् श्रद्धरा विष्णोर्वीर्याणि को वा कथयदुधरणे कश्चरेणोन्मिमीदे यस्यैवाङ्घ्रित्रयेण त्रिजगदभिमिदं मोददे पूर्णसम्पत् योऽसौ विश्वानि धत्ते प्रियमिह परं मन्धाम तस्याभियाम् त्वद्भक्ताय यत्र माद्यन्त्यमृदरसमरन्तस्य यत्र प्रवाहः आद्याय शेषकर्त्रे प्रतिनिमिष नवीनाय भर्त्रे विभूतेर्भक्तात्मा विष्णवेयप्रतिशदिहविरादीनि यज्ञार्चनादौ कृष्णाद्यन्म यो वा महदिह महदो वर्णयेत् सोऽयमेव प्रीधपूर्णो यशोभिस्त्वरितमभिसरेत् प्राप्य मन्दे पतन्ते हे स्तोकवीन्द्रास्तमिह खलु यथा चेदयद्धे तथैव व्यक्तं वेदस्य सारम् प्रणुवदजननोपातलीलाकथाभिः जानन्दश्चास्य नामान्यखिलसुखकराणीदि सङ्कीर्धयध्वं हे विष्णो कीर्तनाद्यैस्तव खलु भजेयम् विष्णो कर्माणि सम्पश्यद मनसि सदा यै सधर्मा न बध्नाध्यानीन्द्रस्यैष भृत्यप्रियसख इव च व्यदनोत्क्षेमकारी वीक्षन्ते योगसिद्धाः परपदमनिष्यं यस्य सम्यक् प्रकाशं विप्रेन्द्रा कृतबहुनुदयो यच्च निर्भासयन्ते नो जादो जायमानोऽपि च समधिगतस्त्वन्महिम्नोऽवसानं देवश्रेयांसि विद्वान् प्रदि मुहुरपि ते नाम शंसामि विष्णो तन्त्वां संस्तौमिनाना विधनुदिवचनैरस्य लोकत्रयस्याप्यूर्ध्वं विभ्राजमाने विरचितवसतिं त्र वैकुठ लोके आपसृष्ट्यादिजनया प्रथमयि विभो गर्भदेशे दधुस्ताय्य जीवा जलशयन हरे संगदा ईक्यब तबोधे विहितमत्मेकं नौ दिक्पत्रं यत् किलाहु कनकधरणिभृत्कर्णिकल्लोकरूपम् हे लोकविष्णुरे दद्भुवनमजन यत्त जानीधयूयं युष्माकं ह्यन्तरस्थम् किमपि तदपरं विद्यते विष्णुरूपम् निहारप्रक्षमाया परिवृदमनस्सो मोहिता नामरूपै प्राणप्रीत्यैकतृप्ताश्चरथ मखपरा हन्दने चा मुकुन्दे मूर्ध्नामक्ष्णां पदानां वहसि खलु सहस्राणि सम्पूर्य भासि चित्तान्तरेऽपि भूदं भव्यं सर्वं परपुरुष भवान् किञ्च देहेन्द्रियादिष्वविष्टोऽप्युद्गतत्वादमृद सुखरः सञ्चानो भुङ्क्षेत्वमेव यत्तु त्रैलोक्यरूपं दधदपि च ततो निर्गतोऽनन्दशुद्धज्ञानात्मा वर्तस्य त्वं तव खलु महिमा सोऽपि तावान् किमन्यत् स्तोकस्ते भागये वा किलभुवनतया दृश्यदे त्र्यंशकल्पं भूयिष्ठं सान्द्रमोदात्मकमुपरि तदो नमस्ते अव्यक्तम् ते स्वरूपम् दुरधिगमतमम् तत्तु शुद्धैकसत्त्वम् व्यक्तम् चाप्ये ददेव स्फुटममृदरसाम्भोधि कल्लोलदुल्यम् सर्वोत्कृष्टामभीष्टान्तदिह गुणरस्येनैव चित्तम् हरन्तीं मूर्तिम् ते संश्रयेऽहम् पवनपुरपदे पाहि मा रोगाद। सर्वत्र नाम सङ्कीर्तनं गोविन्द गोविन्द